ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे सप्तमस्कन्दे षष्ठोऽध्यायः जन्मे देवाचनेनैकसं वैद्यो तकृतो सोमपायिनो वचनं चैकसं सत्यम् स्य महात्मनः मानुष्यस्य बलं कीदृक् देवराजबलं प्रति निषेधौ भिषज्योतेन कृतो सोमपायनौ धर्मानिश्चितदाश्चर्यं विस्तरेण वद प्रभो चरितं च वदनस्याद्य श्रोतृभामोऽस्मि सर्वथाय वासुवाच निशामय महाराज चरित परमाुत चवन से मछे तस्यासे सुकन्या सुंदरी प्राप्य चवन हैजह प्रसन्ना देवकन्यापर कदाचिथ शरिया बारायाचिता भृशं पति प्रहेम वचनम रुद से प्रिया मुन ये उीवती वहासा तो द्रष्ट्याथया गाथम तब आश्रम द्रष्टुरा किं कौती सुकन्या प्राप्यनाथं तथा पुत्री दुःखेन राजसि दग्धास्मि सर्वथा हृदि सम्मानाय विचाराक्षिं तपक्षा मां मदन्ते पक्ष्यामि सर्वथा पुत्रीं कुशाङ्किं वर्कलाभृताम् अन्धं पतिं समासाद्य दुःखभाजम् कृषोदरीम् उवाच गच्छामोद्य विचालाक्षि सुकन्ध्यां द्रष्टुमादरात् प्रियपुत्रीं वरारोहे मुनिं तं संचितव्रतम् गासोवाच एवम् तु शर्यातिः कामिधिं शोकसङ्गुलां जगाम रसमारुह्य त्वरितश्चाश्रमं मुनेः गत्वा श्रम पश्चिन्महीपतिः नव यौवनसम्पन्नं देवपुत्रोपमं मुनिं कु, तं विलोक्यां मराकारं विस्मयं नृपतिर्गतः किं कुत्सितं कर्म पुत्र्या लोकविगर्हितं नेतो सो मुनिर्वृद्धान्यपथि तनन, कृतः कामा कामम् कामं प्रशान्तोऽपि अति निर्धनः दुःसहोऽयं पुष्पधन् विशेषेण च यौवने कुले कलङ्कसु महान् अनया मानवे कृतः धिस्य जीवितं लोके यस्य पुत्री कुत्सिताय सर्वपाप सुदुःखाय पुत्री भगवति देहिनां मया तु अनुचितं कर्म कृतं स्वार्थस्य सिद्धये हृदयान्धाय या दत्ताय पुत्री सर्वात्मना किल कन्या योग्याय दातव्या पित्रा सर्वात्मना किल तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया हन्मी दुश्चिलां पापकारिणीं त्री हत्या दुस्तथा पुत्र्या विशेषतः मरुवंशस्तु विख्यातः सायकलङ्कः कृतो मया लोक लोकापवादो भलवान् दूत्याध्यानिय शृङ्गलाय किं करोमि इति चिन्ता भौ यदा यदा मग्नः सपाथिवः सुकन्यया तदा दैवात् दृष्टश्चिन्ता कुलप्पिता स दृष्ट्वा तं जगामाशु सुकन्या, सुकन्या पितुरन्दगे गत्वा पप्रच्छ भोपालम् प्रेमः पूरितमानस किं विचारे राजन् चिन्ता व्याकुलिताननः उपविष्टम् निम् वीक्ष्य ैः पुरुष व्याघ्रे प्रणमस्वे पतिं मय माविषादं श्रेष्ठे साम्प्रतं कुरु मानवे व्यास इति पुत्र्या वच श्रुत्वा शर्याति प्रोवाचे प्रोवाच वचनं राजा पुरस्थां तनयान्ततः राजोवाच ब्राह्मैश्च वः पुत्री रुद्धुन्धतापसोत्तमः कोऽयं युवामधोन्मस्थ सन्देहोत्र महान् मम मुनिक्यं न्यहतः पापे त्वया दुष्कृतकारिणि नूतनोऽसौ पथिकामात् ओ कूलविनाशिनि अहं चिन्ता तुरसं पश्याम्याश्रमसंस्थितम् किं कृतम् दुष्कृतम् गर्म कुलटाचरितम् कि निमग्नोऽहम् दुराचारे शोकाब्धो तत्कृते धुना दृष्ट्वेदम् पुरुषम् दिव्यम् अदृष्ट्वा च वन्नम् मुनिम् व्यासम् उवाचाशु सा श्रुत्वा वचनम् पितुः वेत्वा पितरम् वक्तुन्तिकमादरात् चवनोऽसौ मुधिताते दा माता तेन संशयः अश्विभ्यामि दृशः कान्ते कुतः कमललोचनः यदृच्छ अत्र सम्प्राप्तौ न सत्या वा श्रमे मम ताभ्यां करुणया नूनं चवन तादृशो कुतः है। नाहं तव सुताते तथा श्यां पापकारिणी यथा तं मन्यसे राजन् विमूढो रूप संशये चवनं पितहे मुनिं कारणं सर्वं च वनं इति श्रुत्वा वचः पुत्र्याः शर्याति त्वरितस्तराय प्रणामय मुनिं तत्र गत्वा पप्रच्छसादरम् राजो च कथयत्व स्वृतान्तम् भार्गवासूयशोचितम् नयने च कथम् प्राप्ते वैगता ते जरा पुनः संशयोऽयम् महान्मेस्ति रूपम् दृष्ट्वातिसुन्दरम् वद विस्तरतो ब्रह्मन् श्रुत्वा अहं सुखमाप्नुयाम् उवाच नासीत्योऽत्र सम्प्राप्तौ देवानां उपकार उपकाराभ्यां कृपया नृपसत्तम मया ताभ्यां बरोदर्थ उपकारस्य हेतवे करिष्यामि मखेरान्यो भवन्तो सोमपायिनौ एवं मया वयप्राप्तम् लोचने विमले तथा स्वो भय महाराज संविश्वासने शुभे इत्युक्ताश्च तु विप्रेण स भार्य पृथिवी पतिः सुखोपविष्ट सुखो कल्याणि कथाचक्रे महात्मा अथयनं भाग्यवप्राय राजानं परिश्वान् याजयिष्यामि राजन् त्वाम् नुपकल्पय मया प्रतिश्रुतं ताभ्यां कर्तव्यो सोमप सोमप युवां तत् कर्तव्यम् श्रेष्ठे त्वयति विस्तरे इन्द्रं निवारयिष्यामि वृद्धं तेजो बलेन वै पायिष्यामि राजेन्द्र सोमं सोममखेतवै तत पंतुष्ट शरिया पृथ्वीपति वन चवनस्य महाराज तद्वाक्यं पश्य पूजयत सम्मान्यद जगाम नगर प्रति सच्चा सतुष्ट कुरु ने किये सर्वे काम समृद्धि कारयामास शर्याति यज्ञायतनमुत्तमम् समानीय मनीन् पूज्यान् वसिष्ठा प्रमुखानसौ भार्गवौ यययाजमायास च वनसे पृथिवीपतिं वितते तु तथा यज्ञे देवास्सर्वे सवात्सवाः आचमूर्छाश्विधौ तत्र स्वमाम्बुव जग्मतुः इन्द्रस्तु शङ्कित तत्र वीक्षतो अश्विनो भव। पप्रच्छतु सरान् सर्वान् किम् एतो समुपागतो चिकित्सको न सोमाहौ केन हि त्यज न ब्रुवन्नम्रा तत्र राज्ञस्तु मुखे अगृह्णाच्य वध्योमम् अश्विनो देवयो सदा शक्रसंवार य मास महागृहाणै तयोर्गृहम्महच्यत्र कथम् वेतो रवेसुतो न सत्यं च केपते न शङ्करो केन दोषेण देवेन्द्र नाहो सोमम् भिषग्वरौ निर्णयोत्र मखे चक्र कर्तव्य सर्वदैव तैः ग्रहयिष्याम्यहं सोमं कृतौतो सोमपमय प्रेरितो सोमया राजा मखाय मघवान् किल एतदर्थं करिष्यामि सत्यं वे वचनं विभो आभ्यामपक्कृतं चक्र तथा दत्तं नवं वयः तद्मापत्युपकारस्तु कर्तव्यः सर्वथा मया चकित्सको कुतो एतौ न सत्यो निन्दितो सुरैः उभो एतो न सोमाहौ मा गृहाणे गुरान, तयोर्गृहं संयच्छाद्य निरर्थकं वृत्त किं नित्यो न सोमर्हो सुरात्मजो एवं विवादे समुपस्थिते च न कोऽपि वाचं तमुवाच भूप ग्रान्तयोर्भागवृङ्मते या संग्रहया मास तपोबलेन इति श्रीमद्देवी भागवते महापुराणे अष्टादश संहितायां सप्तमस्कन्धे चवनेन अश्विनोपसे सोमपानाधिकारत्व चेष्टावर्णनं नाम षष्ठोऽध्याय श्रीजगदम्बिकायार्पणमस्तु